अथ तृतीयम् दशकम् पठन्तो नामानि प्रमदभर सिन्धौ निपतिताः स्मरन्तो रूपं ते वरद कथयन्तो गुणकथाः चरन्तो ये भक्तास्त्वयि खलु रमन्ते परममुन् अहम् धन्यान्मन्ये समधिगतसर्वाभिलषितन् गदक्लिष्टम् कष्टम् तव चरणसेवा रसभरेऽप्यनासक्तम् चित्तम् भवति बत विष्णो कुरुदयम् भवत्पादाम् भोजस्मरणरसिको नाम निवहान् अहम् गायम् गायम् कुहचन विवत्स्यामि विजने कृपा ते जाता चेत् किमिव न हि लभ्यम् तनुभृतम् मदीय क्लेशौघ प्रशमन दशा नामकियती विदधते मुनि प्रौढारूढा जगति खलु गूढात्मगतयो भवत्पादाम्भोजस्मरणविरुजो नारदमुखाः चरन्तीशस्वैरम् सततपरिनिर्भात परचित् सदानन्दाद्वैतप्रसर परिमग्नाः किमपरम् भवतु मम प्रशमयेत अशेषक्लेहशौघम् न खलु हृदि सन्देह कणिका न चेद्व्यासस्योक्तिस्तव च वचनम् नैगमवचो भवेन्मिथ्या हथ्या पुरुषवचनप्रायमखिलम् भवद्भक्तिस्तावत् प्रमुखमधुरा त्वद्गुणरसात् किमपि प्यारू दखिल परिताप प्रशमनी पुनस्ाते स्वाते विमल परिबोधो पोधोदयन दिशति कित प्राथ्यम परूय क्ले युग्मं धृतरसं। कुरचरणयुग्मेत्र प्राप्त करमी चे पूजन विधौर्त्यालोक नयन मथते पादी पिघ्राणे घ्राणमी ते चारुचरि प्रभूता दिव्यासलितेमकृद त्वदीयम् तद्रूपम् परमसुखचिद्रूपमुदयात् उदञ्चद्रोमाञ्चो गणित बहु हर्षाः श्रुणिवहो यथा विस्मर्यासम् दुरुपशमपीडाः परिभवन् मरुद्गेहाधीश त्वयि खलु पराञ्चोऽपि सुखिनो भवत्स्नेहिः सोऽहम् सुबहु परितप्ये अकीर्तिस्ते मा भूद्वरदगदभारम् प्रशमयन् भवद्भक्तोत्तम् सम् झटिति कुरु किमुक्तैर्भूयोभिस्तव हि करुणायाः वदुदियात् अहम् तावद्देव प्रहितविविधार्थप्रलपितः पुरःक्लृप्ते नतिनुतिनिषेवाः विरचयन् इति